ब्रह्मानन्दमीमांसा श्रीगुरुभ्यो नमः हरिः ॐ भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्माद्दग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैशानन्दस्य मीमा गंसा युवा स्यात्साधु युवाध्यायकः आशिष्टो दृढष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः ते मानुषा आनन्दाः स एको श्रोत्रियस्य चाकामहतस्य तेजे शतं मनुष्यगन्धर्वाणामानन्दा स एको देवगन्धर्वाणामानन्द श्रोत्रियस्य चाकामहतस्य तेजे शतं देवगन्धर्वाणामानन्दा स एकपतॄणां तिरलोकलोकानामानन्द श्रोत्रियस्य चाकामहतस्य तेजे शतं पत्रीणां तिरुलोकलोकानामानन्दा स एक अजान्जानां देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये सतमाजानजानां देवानामानन्द स एककर्मदेवानां देवानामानन्दः ये कर्मणा देवानापि यन्ति श्रोत्रियस्य चाकामहतस्य ते ये शतं कर्मदेवानां देवानामानन्दा स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये सतं देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य ते ये सतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य च कामह तस्य ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मणानन्दः श्रोत्रियस्य च कामहतस्य स यश्चायं पुरुषे यश्च सावादित्येन् स एकः स य एवंवित अस्माल्लोकात् प्रीत्य एतमन्नमयमात्मानमुपसङ्क्रामते एतं प्राणमयमात्मानमुपसङ्क्रामते एतं मनोमयमात्मानमुपसङ्क्रामते एतं विज्ञानमयमात्मानमुपसङ्क्रामते एतमानन्दमयमात्मानमुपसङ्क्रामते तदा प्ये स शोको भवति यतो वाचो निवर्तन्ते अप्राप्य मनसा स आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति एतगम् हवान्न तपति किमहं साधुना करवम् किमहं पापमकरवं किमिति स एव एव स य एवं विद्वानेते आत्मानग्रं शृणुते उभे शैवे च एते आत्मानग्रशृणुते य एवं वेद इत्युपनिषत् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ